श्रीहरये नमः अत त्रयोदशोऽध्यायः श्रीशुक उवाचा विसंज्ञवाचं वदतो मुने पुण्यतमां नृपा भूयः पप्रत्यकौरव्यो वासुदेव कदातृतः वितुर उवाचा सवैस्वायम्भुवः सम्राट् प्रियःपुत्रस्वयं भुवः प्रतिलभ्यप्रियां पत्नीं किं सकारततो मुने चरितं तस्य राज शेरादिराजस्य सत्तमा ब्रूहि मे श्रद्धधानाय विश्वक्सेनाश्रयो ह्यसौ श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्झसा सुरीपिरीडितोऽर्थः यद्धद्गुणानुश्रवणं मुकुन्दपादारविन्दं कृतयेषु येषां श्रीसुख उवाच इति ब्रुवाणं वितुरं विनीतं सहस्रश्रीष्णश्चरणोपधानं ब्रह्मरुष्टरोमो भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट मैत्रेय यदा स्वभार्यया साकं जातस्वायम्भुवो मनुः प्राञ्जलिप्रणतश्चेतं वेदगर्भम् अभाषत त्वमेक सर्वभूता जन्मकृत् वृत्तिदः पिता अथनापि च प्रजानां ते शुश्रुषा केन वा भवेत् तद्विदेकिनमस्तुभ्यं ताद स्वस्तिस्ता वां क्षितीश्वरं यन्निर्व्यलीकेन हृदां साधिमेत्यात्मनार्पितम् एतावत्यात्मजैर्वीरन् कार्याह्यपचितेर्गुगुरौ शक्त्या प्रमत्तैर्गृह्येधन् सादरं गतमत्सरैः स त्वमस्यामापत्यानि सत्रुसान्यात्मनो उत्पाद्यसासधर्मेण गाम्यज्ञैपुरुषं यज परं सुश्रूणं मह्यच्छात्प्रजारक्षया नृप भगवान्स्ते प्रजभर्दोर् ऋषिकेशोऽनुतुष्यते येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः तेषां श्रमो ह्य वार्ताय मनुरुवाच आदशेकं भगवतो वर्तेयामी वसूधनस्थानं द्विहानुजानीहि प्रजानां मम च प्रभो यतोकसर्वसत्त्वानां महीमग्ना महाम्भसे अस्यामुद्धरणे यत्नो देवदेव्या विधीयताम् मैत्रेय उवाच परमेष्टि त्वपां मध्ये तथा सन्नाम् अवेश्यघां कथमेनां समुत्नीष्य इति द्यौधियाचिरं सृजतो मेषितेर्वार्भे प्लाव्यमाना रसं गता अथत्र किमनुष्ठेयम् अस्माभिः यस्याहं कृतया सईशो विदधातु मे इत्यभित्यायतो नासा विवरात्सखसानघा वराहतोका निरकात् अङ्गुष्टपरिमाणकः तस्यापि वस्यतः कस्थ क्षणेन गजमात्रप्रवृते दधद्भुतम् अभुन्महत् मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा किमेतत्सौकरव्याजं सत्वं दिव्यमवस्थितम् अहोपदाश्चर्यमितं नाशयोमि विनिःश्रुतं दृष्टोऽङ्गुष्टशिरो मात्र क्षणाद्घण्टशिलासमः अभिस्वित् भगवानेष यज्ञो मे खेदयन्मनः इतीमीमांसतस्तस्य ब्रह्मणः स्वखनसूनुभिः भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभहान् ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् स्वगर्जितेन ककुबन् तिस्वनयथा विभुः निशमयते गर्घरितम् स्वगे दक्षयिष्मायामय सूकरस्य जनतस्तसत्य निवासिनस्ते त्रिभिप्पवित्प्रैर्मुनयो गृह्णन्स्म तेषां सतां वेदविधानमूर्तेर्ब्रह्मावधार्यात्मा गुणानुवादं विनद्य भूयो विबुधोदयायन् गजेन्द्रलीलो जलमाविवेश उक्षिप्तवालः कचरः कठोरन् सठाविधुन्वन्हररोमसत्त्वं कुराहदाभ्रसिधंष्ट्र ईशाज्योतिर्बभासे भगवान् महीद्रहान् घ्राणेन भृत्वा पदवीं विजिग्रन् क्रोढाभदेशस्वयमध्वराङ्गः करालदंष्ट्रोभ्य करालदृग्भ्यां मुद्वीक्ष्य विभ्राण् घृणतो विसद्गं सवज्रकूडाङ्गनिपातवेग विशीर्णकुशिस्तनयन्तु कुरैर्शुरभ्रैर्दरयं स्तधाप पारपारं त्रिपरूरसायां ददर्शकां तत्र सुषु सुरग्रे यां जीवतानीं स्वयमभ्यदद्ध स्वदंश्रयोद्धृत्य महीं निमग्नां समुत्थितसंरुरुषेरसायाः तत्राभिदैत्यं गतया पतन्तं सुनाभसन्दीपिततीव्रमन्युः जगानरुन्धानमहसह्यविक्रं सलीलयेभं मृगराडिवाम्भसीं तत्रक्तपङ्काङ्कितघण्टधुण्डो यदा गजेन्द्रो जगतीं बिबिन्दन् तमालनीलं सितदन्तगोष्ठ्यां शाम् उक्षिबन्तं गजलीलयाङ्ग प्रज्ञाय बद्धाञ्जलयोऽनुवाघैर्विरिञ्चिमुख्या उपतस्तुरीशम् ऋषयवूचू जितं जितं ते जितयज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः व्यर्तोमघर्तेषु निलील्युरध्वरास्तस्मै नमःकराण सुखरायते रूपं तवै तन्ननुदुष्कृतात्मनां दुर्दर्शनं देव यदत्वरात्मकम् छन्दांसि यश्च त्वचिबर्हिरोमस्वाजं दृशिस्त्वङ्गृशो चातुर्होत्रम् श्रुक्तुण्ड आसीत् श्रुवईशनाशयो इडोदरे चमसा कर्णरन्ध्रे प्राचिस्त्रमास्ये क्रसने ग्रहास्तु ते यच्छर्वणं ते भगवन्नग्निहोत्रम् दीक्षानुजन्मोपसदशिरोधरम् त्वं प्रायणीयोतयनीयदंष्ट्रः जिह्वा प्रवक्यस्तव शीर्षकं क्रतो सभ्यावसत्यं चितयो समोहिते सोमस्तुरेतस्सवनान्यवस्थिति संस्थाविबोधस्त्वदेवधातवः सत्राणि सर्वाणि शरीरसन्तिस्त्वं सर्वयज्ञ क्रतुरुष्टिबन्धनः नमो नमस्ते किल मन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्या गुरवे नमो नमः दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूतरभूसभूधरा यथा वनान्तिः शरतो तधा धृता मदङ्गजेन्द्रस्य सप्तपत्रपद्मिने त्रयीमयं रूपमितं च सौकरं भूमण्डलेना तदधाधृतेन तकास्ति शृङ्गोडकनेन भूयसात् कुलोच्चलेन्द्रस्य यथैव विभ्रमः संस्थापयैनां जगतां सतुष्टां लोकाय पत्नीमसिबातरं पितां विधेमचास्त्यै नमसा सह त्वया यस्यां स्वदेजोऽग्निवारणावधाः कश्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुवुद्विबर्हणम् न विस्मयोऽसौ त्वयि विश्वविस्मये व्योमाययेतं ससृजेति विस्मयं विदुन्द्वतावेतमयं निजं वपोर्जनस्तपः सत्यनिवासिनो वयं सटाशिकोद्धूतशिवाम्बुभिन्दुभिः विमृज्यमानो भृशमीशभाविताः तवै बत प्रष्टमतिशवैक्षते यत्कर्मणां यद्योगमाया यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन् विदेहि सं इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवतिभिः सलिले स्वगुरा ग्रान्त उभाता वितावनिं स इत्तं भगवानुर्वीं विश्वक्सेनः प्रजापतिः यगेव मेधां हरिमेधसोहरे कथां सुभद्रां कथनीयमायिनः शृण्विदभक्त्या शवये तवो वोसतीं जनार्दनोऽ स्यासुहृदि प्रसीदति तस्मिन् प्रसन्ते सकलास्तिषां भ्रभौ किं दुर्लभं दाभिरलं लवात्मभि अनन्य भजतां भजताुहाशय स्वयं विधत्ते स्वगति परपरा को नाम लोकषाथसारभित पुरा गता भगवत्कता आपीयकर्णंजलिर्भवापहाखो व्रजतेना नरेतर श्रीमद्भगवते महापुराणे तृतीयस्कते पराह प्राधुर् भावान सर्वत्र गोपिका जीवनस्मरणं स्मरण गोविंद गोविंद सद्गुमहराज के जय